गर्गसंहिता खण्डं टेन् अश्वमेधखण्डम् अध्यायम् इलेवन् श्रीगर्ग उवाच अधराजासुधर्मायां वासुदेवेन नोदितः संस्थितान् ऋत्विजोव्रे मूर्ध्ना नम्य प्रसाद्य च पराशरश्च व्यासश्च देवलश्च वनोऽसिदः सदानन्दो गालवश्च याज्ञवल्क्यो बृहस्पतिः अगस्त्यो वामदेवश्च मैत्रेयो लोमशकविः अहङ्कृदुर्जैमिनिश्च वैशम्बायन एव च पैलस्सुमन्धुकण्वश्च भृगुरामो कृतव्रणः मधुश्चन्दवीदहोत्रो कवषो धौम्यः सुरीः जाबालिर्वीरसेनश्च पुलस्य पुलः तथा दुर्वासाश्च मरीचिश्च ह्येकतश्च द्वितस्तृदः अङ्गिरानारदैश्चैव पर्वतकपिलो मुनिः जादूकर्ण्यो ह्युदध्यश्च संवर्तश्च मृगीसुधः शाण्डिल्यप्राग्विपाकाश्च कहोडः सुरदो मनुः कचस्थूलशिराश्चैव स्थूलाक्षप्रतिमर्दनः बगदाल्भ्यश्च कौडिन्यो भगदाल्भ्यश्च कौण्डिन्यो रैभ्यो प्रकडाक्षो यवक्रीदो वसुधन्वाच मित्रभूः अपान्तरतमो दत्तो मार्कण्डेयो महामुनिः जमदग्ने कश्यपश्च भरद्वाजश्च गौतमः अत्रेर्मुनिर्वसिष्ठश्च विश्वामित्रपदञ्जलिः वात्यायनिपाणिनिश्च वाल्मीक्याद्याश्च ऋत्विजः पूजिता यादवेन्द्रेण प्रसन्नास्ते भवन्नृप ततः सर्वे ऋत्विजश्च नृपमूचर्निमन्त्रिताः मुनय ऊजुः उग्रसनमहाराज सुरासुरनमस्कृत यज्ञम् कृष्णस्य कृपया कुरुसोऽपि भविष्यति इति तेषाम् वच श्रुत्वा परितुष्टाखिलेन्द्रियः सर्वान् वै क्रदु सम्भारा नाजहारान्धकेश्वरः तदकृष्ट्वा यज्ञभूमिम् विप्राक्कनकलाङ्गलैः पिण्डारके यथा न्याय्यम् चक्रिरे नृपम् चादुर्योजनपर्यन्तम् विलिख्य बहुश्योमहीम् यज्ञस्यार्थे नृपस्तत्र रजयामास मण्डपान् योनिमेकलया युक्तम् मध्यकुण्डम् विधाय च तस्मिन् वै स्थापयामास विधिना जादवेदसम् रत्नानेकैर्विरचिताम् पदाकाभिर्युदाम् सभां मम वाक्याद्वज्रनाभे रजयामास जाहुकः दृष्ट्वा सभां कृष्णो निज गौ स्वसुदम् प्रदि श्रीकृष्ण उवाच प्रद्युम्न शृणु प्रद्युम्न शृणु मद्वाक्यम् तन्निशम्य गुरुत्वरम् गत्वा शस्त्रधरै सूर्य यत्नेन हयमानय श्रीगर्ग उवाच इति श्रुत्वा हरे वाक्यम् प्रद्युम्नो धन्विनाम् वरह तदेत्युक्त्वा कयम् नेतुम् वाजिशालाम् जगामः तद कृष्णेन रक्षार्थम् स्वपुत्राश्च हयस्य वै प्रेषिता वाजिशालायाम् भानु साम्पादयो नृप स सा गत्वा वाजिशालायाम् रुक्मिणी नन्दनो बलि स्वर्ण श्रृगया बद्धाञ्छ्याम कर्णान् सहस्रशः विलोक्यैकम् स्वहस्तेन यत्नयोग्यं तुरङ्गमम् प्रखः सन्मोचयामास बन्धनान् नृपलीलय सखयो निर्ययौ मुक्तो शालायाश्च शनै शनैः प्रक्ताननोऽपित पुच्छस्याम कर्णो मनोहरः स्रग्भिर्मुक्ताफलानाञ्जशभितो दिव्यदर्शनः वेदादपत्रेण युधो चामरैः समलङ्कृतः अग्रजो मध्यतश्चैव पृष्टतश्च हरे सुधाः सेवन्दे हरिराजम् वै सुरा सर्वे हरिम् यथा तदा न्यैरक्षमाणस्तु मण्डले शैः सुरङ्गमः प्राप्तोऽध मण्डपम् कुर्वन् कुरक्षततलां महिम् नृपो वीक्ष्या गतम् तत्र श्यामकर्णम् मुदान्विदः प्रेषयामास मां राजन् क्रिया कर्तव्यदाम् प्रदी सोहम् नृपम् च संस्थाप्य रुचिमत्या समन्वितम् पिण्डारके प्रयोगम् वै कारयामास धर्मतः नृपश्चैत्रे पूर्णिमायाम् दीक्षितो जिनसंवृदः असि पत्रव्रतम् राजन् स चकारमदाज्ञया अहम् तु चैव विप्राणामाचार्यो ह्यभवम् नृप अथ विप्रब्रह्मको शै सर्वे प्रपूजयामासो हेरम्भादीन् सुरान् पृथक तद सर्वे मुनिगणान् संस्थाप्य तुरगं नृप काश्मीरचन्दनेनापि पुष्पस्रग्भिश्च तन्तुलैः नीराजनादिभिर्दुभै सुधा कुण्डलकादिभिः पूजयित्वा हयम्भूपम् दानार्थे दुःख्यनोदयन् तदश्रुत्वा कुकशीक्रं पूर्वम् मह्यं ददौ धनम् एकलक्षं तुरङ्गाणा सहस्रं हस्तिना तथा द्विसहस्रं रथानां च धेनूनां लक्ष्यमेव ज शतभारं सुवर्णानामीदृशीं दक्षिणां नृपः निमन्त्रितेभ्यो विप्रेभ्य उग्रसेनो नृपस्तदः यदोक्तम् दक्षिणाम् राजन् प्रतदौ ताम् च त्वम् शृणु कोटकानाम् सहस्रम् च द्विपानाम् शतमेव च रथानाम् द्विशतम् चैव सहस्रम् च भवाम् तथा विंशद्भारम् च हेमानामि दृश्यम् दक्षिणाम् पुनः अधा गदेभ्यो विप्रेभ्यो नत्वा राजा विधानदः गजमेकं रथम् गाञ्च स्वर्णभारं च कोटकम् ये कैकस्मै च विप्राय दक्षिणाम् प्रददौ नृपः एवम् कृत्वा दुदानम् वै ललाडे तुरगस्य च कमनीयम् कुङ्कुमाद्यै स्वर्णपत्रम् बबन्धः तत्राहमुग्रसेनस्य वीर्यमूर्जितम् तदोत्खिलम् तदोल्लिखम् सभायां वै यादवानाम् च पश्यताम् चन्द्रवंशे यदुकुले उग्रसेनो विराजदे इन्द्रादयसुरगणा यस्यादेशानुवर्तिनः सहायो यस्य भगवान् श्रीकृष्णो भक्तपालकः अस्ति वै द्वारकाबुर्याम् तद्भक्त्यानिव संहरिः तद्वाक्याद्धयमेधं स उग्रसेनो नृपेश्वरः चक्रवर्तिहडाद्यम् स्वयशोर्धे करो दिः मोचितस्तेन तुरगोहयानां प्रवरः शुभः तद्रक्षककृष्णपौत्रो निरुद्धो वृतदैत्यः जाश्वरथवीराणां सेनासङ्खसमन्वितः राजानो कौ शूरमानिनः ते गृह्णन्तु यज्ञहयं स्वबलात्पत्रशोभितं तं मोचयदि धर्मात्मा गृहीतं च हयं नृपैः स्वबाहुबलवीर्येणानिरुद्धो लीलया हटाद तस्यान्यथा च पदयो पदित्वयान्तु धन्निनः इति पत्र च पांस्य तालमृदङ्गाद्याने दुर्भेर्यश्च गोमुखाः मङ्गलानि चरित्राणि श्रीकृष्णबलदेवयोः गन्धर्वास्तत्र गायन्ति न नृतुरप्सरसो मुदा अधा तुरगस्य पालने भूत्वा प्रसन्न किल कार्ष्णिनन्दनं समाधिदेशाच्चिदमेव यदुक्तमानामधिपस्य पश्यदः इति श्रीगर्गसंहितायाम् हयमेधचरित्रे सुमेरौ हयपूजनम् नामैकादशोऽध्यायः ओ अध्यायम् ट्वेल् गर्ग उवाच अधराजा कुशस्थल्याम् पूजयित्वा तुरङ्गमम् मुमोच ब्रह्मघोषेण विधिना बद्धचामरम् सुधाकुण्डलिकासोऽपि उक्त्वा तुरगराट् ततः निर्ययौ स्वर्णमालाभिशोभिदकुङ्गुमेन च रक्षणार्थम् अयस्यार्थे चादरेण नृपेश्वरः अनिरुद्धम् वृकफणमूचे रक्षार्थमुद्यतम् उग्रसेन उवाच श्रीकृष्णपौत्र प्राद्युम् ने त्वया वचः पालनार्थे तुरङ्गस्य स्वेच्छया तत् कुरु त्वरम् मद्राजसू ये पूर्वम् वैप्रद्युम् नेन जिदामही त्वम् तु सूरोऽसि बलवान् धन्वी तस्यात्मजो महान् पृकस्तु शकुनिर्भ्रादामहा दैत्यो हदस्त्वया राजानश्च सर्वे भीष्म हितोषितः तोषितः अहो मृगम् कलो केशौ यस्मिन् संलीनदां गदौ तस्मात्वा मृषय सर्वे परिपूर्णं वदन्ति तस्मात्पालयत्वं वीरसेनाया च परिवृदः राजन्येभ्यश्च सर्वेभ्यो हयमेधतुरङ्गमम् अर्भकान् विरधान् भीदान् प्रपन्नान् दीनमानसान् सुप्तान् प्रमत्तानुन्मत्तान् रणे तान् मा निपादय श्रीकृष्णस्य प्रतापेन निर्विघ्नम् तेस्तु कार्ष्णिज शाश्वस्तम् पुनरागच्छ कुशली शेनयान्विदः गर्ग उवाच तद श्रुत्वा निरुद्धस्तु नृपस्य भजनम् शुभम् तथेत्युक्त्वा हयस्यापि पालनार्थम् मनो दधे अधानिरुद्धम् ते विप्राक् कृष्णचन्द्राज्ञया त्वरम् तम् मन्त्रैष्णापयित्वा च पूजाम् चक्रो मुदान्विताः अनिरुद्धस्य तिलकम् कृत्वा राजा विधानदः बलिम् दत्त्वा च युद्धाय करवालम् ददौ तदाः तस्मै गौरिश्च तस्मै शौरिश्च कुण्डले बलदेवश्च कवचम् स्वचक्रम् हरिरेव च प्रद्युम्नश्चानिरुद्धाय कृष्णदत्तम् धनुर्दद्धौ तथा स्वतूर्णौ राजेन्द्र तस्मै चाक्षय सायकौ स्वत्रिशूलासमुत्पाट्य उद्धवश्च किरीडम् वैपीतवस्त्रम् च देवकः प्रचेतानागभाष्यम् च शक्तिम् शक्तिधर किल व्यजने दिव्ये स्वदण्डम् यमराट् पुनः राजराजो राजराजोपरिखम् तु धनञ्जयः भद्रकालीकदाम् गुर्वीम् दिवाकरः भूपादुके योगमय्यौ पद्मम् दिव्यम् गणाधिपः शङ्खं च दक्षिणा वर्तमक्रूरो विजयप्रदम् सहस्रवाजी संयुक्तम् विश्वकर्म विनिर्मितम् सहस्रचक्रम् स्वर्णाढ्यम् ब्रह्माण्डान्धर्बहिर्गतम् चक्रेण शतकुम्भैश्च पदा काभिषदैरपि शोभितम् मेघनिर्घोषम् खण्डामञ्जीरनादिदम् मनोवेगम् महादिव्यम् जैत्रम् रत्नमयम् रथम् अनिरुद्धाय प्रददौ द्वारकायां पुरन्तरः कम्बुदुन्दुभयोनेदुकांस्य वीणादयस्तदा मृदङ्गवेणवो रागैर्जयध्वनिसमाकुलैः ब्रह्मघोषै खोशाय, ब्रह्मघोषैराजपुष्पैर्मुक्तावर्षसमन्वितैः अनिरुद्धोपरिसुरा पुष्पवर्षम् प्रचक्रिरे यदि श्रीगर्गसंहितायाम् हयमेधखण्डे अनिरुद्धविजयाभिषेको नाम द्वादशोऽध्यायः ओम् अध्यायम् तर्टीन् श्रीगर्ग उवाच अधनत्वा नत्वा गुरून् सोऽभिप्रायात् प्रष्टुम् च देवकीं रोहिणीम् रुक्मिणीम् भामामन्या सर्वा हरिप्रियाः नत्वा रदिम् रुक्मिवदीमहम् गच्छाम्युवाचः राज्ञाभीष्टपालनार्थम् हयस्य सह यादवैः ताश्च गद्गदभाषिण्यस्तम् परिष्वज्य कार्ष्णिजम् आशिषम् प्रददू राज्यं तस्मै च प्रणदाय वै न त्वा भवनानि च समागतम् स्वभर्तारम् ते स्त्रः पत्न्यो विलोक्यज आदरम् तस्य ताश्चक्रोर्विरत् खिन्नमानसाः आश्वासयित्वा तास्तोऽपि च जगामसभाम् किल आथाध्वरार्थे राजेन्द्रमुनिभिः कृतमङ्गलः सर्वान् ऋषीन् गुरूंश्चैव नृपेन्द्रम् शूरमेव ज वसुदेवम् च हलिनम् कृष्णम् स्वपितरम् तथा अन्यांश यादवान् पूज्याननिरुद्धप्रणम्य च पूजितोनागरैः सर्वैर् धनुष्याणिशरीनृप बद्ध गोधाङ्गुलित्राणकवचे कुण्डलावृदः उपानद्गूढपादश्च पञ्चास्य समविक्रमः करवालधरसर्मी किरीडीशक्लिहस्तकः महावीरसुवर्णस्य ह्यलङ्कारैलङ्कृतः पुरन्दररथेनाभिनिर्ययौ स्वपुराद् बहि गीदवादित्रकोषेण ब्रह्मकोषेण कार्ष्णिजम् यास्यन्तम् चामरैर्युक्तम् ददृश्युपुरवासिनः तद् श्रीकृष्णचन्द्रेण प्रेषिता उद्धवादयः भोजवृष्ण्यन्धकम् मधु स्यूरसेन दशार्हकाः अधराजा यदुन्प्राखानिरुद्धस्य च यादवाः सहा यार्धम् तु प्रधने वद उग्रशनवच श्रुत्वा साम्बोजाम् भवती सुधः सर्वेषाम् पश्यताम् नत्वा नृपम् वचनमब्रवीद साम्ब उवाच अनिरुद्धस्य राजेन्द्रसहायमहमेव च महारणे च शत्रुभ्य करिष्ये सर्वदा किल यद्यहम् तस्य रक्षाम् वै न करिष्ये रणङ्गणे प्रतिज्ञाम् मम राजेन्द्र शृणुष्व सत्यवादिनः त्याज्याम् तु दशमीविद्धम् ह्यः कृत्वै एकादशीम् नरः प्रयादीयाम् गतिम् राज्यम् ध्रुवम् गोहन्दॄणाम् गदिर्यादु या गदिर्ब्रह्मकादिनाम् साङ्गदिर्ममभूयाद्वै न गुर्याम् कर्म गर्ग उवाच युत्युक्त्वा वचनम् सोपि यौ नत्वाजमादरं पुरम् ततः न त्वा श्रुत्वा सा तम् परिश्वज्य विरहादाशिषं ददौ तदो माधृस्तु ताः सर्वा नत्वा पत्नीगृहं गतः सा तामायान्तमालोक्य लक्ष्मणा वरलक्षणा दत्वास्तनं बाष्पकण्डी नदु किञ्चिदुवाचः आश्वासयित्वा तां साम्बोख्यभिप्रायमवर्णयद यदि श्रुत्वा पदिम् प्राकविरभाभिन्नमानसा लक्ष्मणोवाच अनिरुद्धस्य तुरभो रक्षणीयस्त्वया पदे युद्धम् हि सम्मुखम् कार्यम् विमुखम् न कदाचन त्वद्भ्रातॄणाम् स्त्रियः सन्धि मानवत्य सहस्रशः सङ्ग्रामे यदि देनाथ निशम्यजपराजयम् स्मिता न भविष्यन्ति दृष्ट्वा माम् च तव प्रियम् तदा दुःखतमेनाथ मरणम् तु भविष्यति श्रुत्वैतद्वचनम् साम्भो प्रत्युवाच हसन् साम्ब उवाच प्रधने मम सम्प्राप्तम् वैलोक्यम् सम्मुखम् किल शोष्य भद्रे सर्वम् च विदलीकृतम् यदि साम्बोरणाचूर्यमुखो जायदे शुभे तदा सोऽस्तु स्वपानेन तदा स्वस्तु स्वपापेन ब्रह्म विप्रविनिन्दकः पुनस्त्वहं न पश्यामि चन्द्राकारं दवाननं गर्ग उवाच इत्याश्वास्य प्रियां साम्भो द्वितीयां च प्रयत्नदः अभिमन्युं सुभद्रां च मिलित्वा निर्ययौ च चाभिनैष्ठिं शकः सज्जो स्यन्दनी यादवैर्वृतः प्राप्तस्वभवने साम्बो निरुद्धो यत्र वर्धते ततः स्वभ्रातर सर्वे श्रीकृष्णेन गदादयः प्रेषिता आत्मजाश्चैव भानुदीप्तिमदादयः सर्वे हि दन्विनशूरा न युद्धकोविदाः चतुरङ्गबलोपेदा निर्जग्मुकोडिश्य पुराद पालहंस मीनबर्हि मृगराजध्वजैरथैः दिव्यैश्च कनकाङ्गैश्च च दुर्वाजिसमन्वितैः महोचैर्देवधिष्ण्याभ्रैश्चक्रचामरसंयुतैः सूर्याभ्याैश्च सुवर्णस्य कुम्भैर्जालकतोरणैः रेजु सर्वे कृष्णसुधा कुशस्थल्या विनिर्गताः ततश्च निर्ययुराजन् हेमनीडाश्च हस्तिनः गोमूत्र चयसिरकस्तूरी पत्रभृन्मुखाः अजनाभा प्रज्जलाभाघनश्यामामदक्ष्युदाः राजीवमूलसन्दृश्य शुक्लदन्ता मृगाद्विपाः महोत्सा पर्वताकारा रणत्खण्डामहोद्भटाः ऐरावदकुलेभाश्च तिस्र शुण्डाश्च पाण्डुराः चतुर्दन्तास्तु कृष्णेन भौमा नीताश्च ध्वजयुक्ता लक्षगजा लक्षदुन्दुभि संयुधाः लक्षा शून्यामहामाख्यायै स्वर्णा कम्बलमण्डिताः पदशूरैश्च इदस्तदो विरेजुस्ते बलेब्धौ मकरायद्धा उत्पाट्य गुल्माच्छुन्दैश्च क्षेपयन्तो नभस्तले महीपादैः कपयन्द आर्द्रीकृत्यमदैरपि प्रासाददुर्गशैलाङ्गन् पादयन्तशिरस्थलैः श्रीपूणां च बलं सर्वं कण्डयन्तो महाबलाः श्यामपीतकृष्णशुक्लरक्तवर्णैश्च कम्बलैः सुवर्णशृङ्खलैर्युक्दा रेजु रे तादृशा गजाः तदस्तुरङ्गमाये ता वै नारदेन ना विलोकिताः ते सर्वे निर्गतराजन संयुधाः केचिद्वै चञ्चलाङ्गाश्च धूम्रवर्णा मनोहराः श्यामवर्णा पद्मवर्णा कृष्णवर्णा सुकन्धराः दुग्धाभा कोडका केजित्तथा कीला लसन्निभाः हरिद्राभा कुङ्गुमाभा पालाशकुसुमप्रभाः केजिचित्रविचित्राङ्गा स्फटिगाङ्गा हरिद्वर्णास्ताम्रवर्णा कौसुम्भा सुखप्रभाः इन्द्रगोपनिभा गौरादिव्या पूर्णेन्दुसन्निभाः सिन्दूराङ्गाश्चाग्निवर्णा रविबालसमप्रभाः यदे तुरङ्गमहाराजन् सर्वदेशात् समागताः पुर्याम् कृष्णप्रतापेन तेदु तु सर्वे विनिर्गताः कृष्णस्य वाजिशालासु ये वर्तन्ते च देहयाः वैकुण्ठवासिनश्चैव स्वे दद्वीपनिवासिनः के जिन्मयूरवर्णाश्च नीलकण्ठनिभास्तथा विद्युद्वर्णास्तार्क्ष्यवर्णाः सर्वे पक्षैरलङ्कृताः शिखामणिधर शुक्लजामरैसमलङ्कृताः श्रद्भिर्मुक्ताफलानां च रक्त वस्त्रायर्विभूषिताः स्वर्णेन मण्डिता पुच्छमुखपट्टस्फुरत्प्रभाः सर्वाङ्गसुन्दरा दिव्या सहस्रशः न स्पृशन्धपदैर्भूमिं ह्यदे कृष्णहया नृप चञ्चलवायुवेगाश्च मनोवेगा मनोहराः बु भूदेष्वदिकाश्चैव पक्वसूत्रेषु भूपदे लूता जालेषु केचिद्वै चलन्धपारदं ह्यनु स्पारा वारिषु दृश्यन्ते निराधारा नृपेश्वराम् अन्येऽपि निर्गदा राजन्मलेश्च देशभवाहयाः शतयोजनकाश्चैव शैलादींश्च हरेऽर्थयाः उल्लङ्घयन्तो नृपदे सविरास्ते तुरङ्गमाः ततश्च सर्वे द्वारगायाः पदादिनः धन्विनो दंशिदांशुरामः बलपराक्रमाः खड्गचर्मधरा उच्चालौ कञ्चुकमण्डिताः सङ्ग्रामे बहुशत्रूणां जदारो गजसन्निभाः युद्धम् विनिर्गतम् सैन्यम् यादवानाम् निरीक्ष्य जेवदैत्यतरा सर्वे विस्मयम् परमम् गताः इति यदु हयमेधखण्डे यदुःसैन्यनिर्गमनम् नाम त्रयोदशोऽध्यायः ओ अध्यायम् 14 गर्ग उवाच अथ तन्मिलनार्थं वै उग्रसेनाज्ञया नृ वसुधेव कामपाल श्रीकृष्णकार्ष्णिरेव च राजन् रथै सर्वे विनिर्ययुः गत्वा निरुद्धं ददृशुः सेनयादुपरीवृधं प्रद्युम्नाय राजसूये यानिधिकथिता सर्वामनिरुद्धाय कथयामास माधवः यदि श्रुत्वा जष्णस्य शासनम् सर्वयादवाः शिरसा जगृहु राजन्ननिरुद्धादयो मुदा अत गर्गं मुनींश्चैव हला हलायुधन् श्रीकृष्णचन्द्रम् कार्ष्णीं च प्राद्युम् हि प्रणनामः वसुधेव रामकृष्णप्रद्युम्नाद्याशुभाशिष्यम् अनिरुद्धाय दत्त्वा च हयो देशे देशे गतो नृपा न केऽपि जगृहुस्तम् वैभयात् कृष्णस्य भूमिपाः यत्र यत्र गतो ससैनिकः कार्ष्णीज पृष्टतस्तस्य शत्रून् गतः युद्धं विलोकयन् राज्याननिरुद्धरङ्गमः राजिदां नर्मदातीरेयौ माहिष्मदीं भुरिं चादुर्वर्ण्यसमाकीर्णा मश्मदुर्गेण मण्डितां सदनैर्गगणस्पर्शैर्मस्यालयैर्वृताम् इन्द्रनीलेन राज्ञापि पालितां पञ्चयोजनम् शालैस्तालैस्तमालैश्च वटैर्बिल्वैश्च पिप्पलैः तडागैश्चैव वापीभिर्गुष्टां पक्षिगणैस्तथा ईदृशीं नगरीमश्वोदर्शोपवने गतः इन्द्रनीलस्य तनयो नाम्ना नीलध्वजो बली पुल्यासहस्रवीर्यश्च मृगयार्थी विनिर्गतः ततो ददर्शतुरङ्गम् सपत्रम् नृपनन्तनः प्रफुल्लिते चोपवने कदम् पश्यतले स्थितम् चरन्तम् चामराैर्युक्तम् सौरभेयीपयप्रभम् स्त्रीणाम् कुङ्कुमहस्तैश्च मुक्ताहारैरलम् कृतम् अयम् दृष्ट्वा राजसुधा स्ववासादवधीर्यज केशेषु तम् निजग्राहकर्षेण नृपलीलया तत्पत्रम् वाजयामास यादवेन्द्रेण यत्कृतम् द्वारकाधिपति राजा सर्वशूरशिरोमणिः नान्योऽस्ति तत्स मक् कोऽपि चक्रवर्ती बृहश्रवाः विमोचितसुरगराट्यनासौ पत्रसंयुधः पाल्यमानोऽनिरुद्धे न गृह्णन्तु सबला नृपाः पदित्वा यान् इत्यभिप्रयमालोक्य कोपेनाथ नृपात्मजः अनिरुद्धोदनुर्धारिधन्विनो न वयम् स्मृताः मत्पितरिस्ति दे मह्याम् कस्तु गर्वम् समाचरेद श्रीगर्ग उवाच इत्युक्त्वा सहयम् नीत्वा प्रययौ नृपसन्निधौ कदया मासवृत्तान्तं पितुरग्रे हयस्य जुत्वा पुत्रस्य वचनमिन्द्रनीलो महीश्वरः शिवभक्तो महामानि पुत्रम् उवाजा समर्थेन पुरा दत्तं राजसूये क्रमो क्रमो अद्यानि रुद्धस्तुभयं पालयन पुनरागतः अहो दैवबलं येन किन्न भूयाद् विपर्ययः कदा वृद्धिं द्वारकायामल्पकालेन वृष्णयः तस्मात् सर्वान् विजेष्यामि कार्ष्णिजप्रमुखान् यदून् श्यामकर्णं न दास्यामि तस्मै मानवृताय ज पालयिष्यति मां युद्धे भक्र्या सन्तोषितशिवः इत्युक्त्वा सेनया युक्तो वीरो मा किमदीपदिः स्वर्णदाम्ना हयम् बद्ध्वा युद्धं कर्तुम् मनो दधे ततो निरुद्धसम्भ्रातो तुरगं च विलोकयन् अक्षौहिणीशतयुधो नर्मदायास्तडे नृप साम्भो मधु बृहद्बाहुचित्रभानुर्भृकोरुणः सङ्ग्रामजित्सुमित्रश्च दीप्तिमान् भानुरेव च वेदबाहुपुष्करश्च श्रुतदेवस्तुनन्दनः विरूपचित्रबाहुश्च न्यग्रोधश्च कविस्तथा यदे समाययुराजन्ननिरुद्धसहायिनः गदश्च सारणक्रोरकृतवर्मा हि चोद्धवः यो यो धानो सात्यभिश्चचूर एते जवृष्णयः सहायमनिरुद्धस्य कर्तुम् सर्वे समागताः स्थित्वा तेनर्मदातीरे भोज वृष्ण्यन्धकादयः श्यामकर्णमपश्यान्तस्त्वब्रुवन् विस्मि विस्मयान्विताः येन नीता सपत्राश्च उग्रसेनस्य भूपतेः तस्मान्मित्राणि सोऽप्यत्र श्यामकर्णो न दृश्यते राजसूये पुरा यस्मै नरदैत्यसुरादयः नवखण्डाधिपाश्चैव निर्जितश्च बलिम् ददुः यस्य वैशासनम् चण्डम् तिरस्कृत्य बुधिर्नृपः तुरङ् तुरगम् हतवान् मानात्सस्तेनो दण्डमर्हदि सर्वेषामिति वाक्यम् तु श्रुत्वा दृष्ट्वा पुरीम् पुरः उद्धवमन्त्रिणम् श्रेष्ठम् प्राक् रुक्मवती सुतः अनिरुद्ध उवाच नगरीयम् नदीतिरेकस्य भूपस्य राजते तुरङ्गमो गत्वोऽस्त्यस्यामिति मन्ये त्वकम् किल कृष्ण सखो मुदा उद्धव उवाच इन्द्रनीलस्य नगरी नाम्ना माहिष्मदीशुभा महेशपूजनरता वर्णा यस्याम् वसन्तीः नृपेणानेन ना वृष्णीश नर्मदायाडे पुरा द्वादशवर्षपर्यन्तम् पूजितो नर्मदेश्वरः तदशिवप्रसन्नो भूदुपचारैश्च षोडशैः तस्मै स्वदर्शनम् दत्त्वा वरार्धम् कमनोदयात् महेशस्य वच श्रुत्वा नृपो माकिष्मदीपदिः भूत्वा कृदाञ्जली रुग्रम् प्राह गद्गदया गिरा ईशानत्वाम् नमस्य नर्म देशम् जगद्गुरुम् पुरुषाणाम् सपामानाम् आमरूप सुरग्रूमम् त्वत्प्रदादुक्ताक्षेहम् वरमेदन्महेश्वर देवदैत्यनरेभ्यस्त्वं रक्ष मां सर्वदा भयाद इति तद्वाक्यमाकर्ण्यकृत्तिवासामुदान्विदः तदा तु चोक्तुवा राजेन्द्रतदश्चान्दरधीयत तस्माद्देशनृपशूरो हयं तुभ्यं न दास्यति विना कन्दर्पनन्दन युद्धमौप गवेर्वाक्यमनिरुद्धो निशम्यज बलिधैर्येण प्रत्याह यादवानां च शृण्वदां नृपस्यैतस्य रुद्रस्तु सहायस्ते ह्युता हृदः कृष्णस्तु भगवान् शृणु मन्त्रिन् ममोपरि इत्युक्तु वा यादवैः सार्धम् वीरो रुक्मवती सुधः हयस्य मोचनार्थम् वैनृपम् जेतुम् मनो दधे तद परिखनिस्तृंश्य गदा चापरश्वधैः बभूवुर्यादवा सज्जा प्रद्युम् नौ इति श्रीगर्गसंहितायाम् हयमेधखण्डे अनिरुद्धप्रयाणम् नाम चतुर्दशोऽध्यायः ओ अध्यायम् फिफ्टीन् श्रीगर्ग उवाच अभेन्द्रनीलस्य सुधो महाबलो ह्यक्षौहिणीभिस्त्रिभिरेव संयुधः यदून् विजेतुं स्वपुराद्विनिर्गतो विदुष्टवाक्याद् बहुरोषपूरिदः समागतम् वीक्ष्य नृपस्य पुत्रम् श्रीकृष्णपौत्रस्तु धनुर्गृहीत्वा युद्धम् प्रकर्तुम् प्रयय्यौ स एको वृत्रम् विजेतुम् जयधा विडौजाः गत्वा निरुद्धसङ्ग्रामे शत्रूणामुपरि त्वरम् मुमोचबाणपडलान् सर्वेषाम् त्रास्यन्मनः ततश्च दुद्रुवः सर्वनीलकेतोश्च सैनिकाः रणभेदा स्वशङ्खं च दमौ प्रद्युम्ननन्दनः पदाय मानां सेनां दृष्ट्वा नीलध्वजो बली चापं टङ्कारयञ्चीक्रमाय यौ रणमण्डले सेनां स्वां नोदयामास पुनस्सोभिधनुर्जया द्वेषां मध्ये निरुद्धं तं दृष्ट्वा नीलध्वजो धनिष्टङ्गा जयन् प्राप्तो ह्यक्षौ हिण्यामृदोरुषा विंशद्बाणैर्नीलकेतुम् पञ्चभिः पञ्चभीरथान् अदाडयत् गजांश्चैव तथा सतुरगान्नरान् भूम्याम् निपे दुस्ते सर्वे साम्बबाणै प्रताडिताः गजोपरि गजाख्ये जिद्रथोपरि रथास्तथा हयोपरि हयाश्चैव नरोपरि नराश्च वै तत्क्षणेनाप्यभूद्भूमि रुधि रौखपरिप्लुधा पतितैश्चिन्नभिन्नैश्च द्वीपाश्च रथपत्तिभिः तदप्रभग्नम् स्वबलम् विलोक्य नीलध्वजो भूपदनुर्गृहीत्वा बाणान् विमुञ्चन् किल यादवानां यदुं मनो यस्य स चागमद्वै स गत्वा प्रधने राजन्दशबाण इरुषान्विदः शापं साम्बस्यतिच्छेदप्रेम दुर्वचन इरिव चतुर्भिश्चतुरो वाघान्द्वाभ्यां केतुं रथं शदैः एकेन जग्ने सूदंस स इन्द्रनील सुधो बली एवं कृत्वा जविरथं साम्बं वै नृपनन्दनः पुनः समागतं तस्य सेनां बाणयुर्जखानः अधमीलध्वजस्यापि सेना सर्वा समागदा यादवानां बलं सङ्घ्ये जखाननिशितैः शरैः तद समभगवद्युद्धमुभयोश्च सेनयोर्मृधे नितृं शैपरिकैर्बाणैर्गदा परुषशक्तिभिः साम्भोज्ञम् रथमारुह्य सज्जम् कृत्वा धनुर्दृढम् तद्रथम् चूर्णयाम सशतबाणैरणे बली सच्छिन्नधन्वा विरधो गदामुद्यम्य वेगवान् अभ्यद्रावद्रणे क्रुद्धो साम्बस्योपरिमानदा तदैव साम्बं सहसा वधीर्याधरधाद्गदाम् नित्वा नीलध्वजस्यापि सम्मुखे गतवान् ऋषा तदाडगदया साम्बमागतम् वीक्ष्य भूपजः न च चालप्रहारेण मालाहदगजो यथा तदस्साम् वस्तुगदया तदाड नृपनन्दनम् तत्प्रकारेण परिदो मूर्छाम् प्रातोरणे तु सः सैनिका दुद्रुगुस्तस्य हाहाकारम् समुच्चरन् तदो युद्धाय संक्रुद्ध इन्द्रमीलसमागतः साकमक्षौहिणीभ्याम् च विमुञ्च धनुषाचरान् समागतम् विलोक्याद मधुकृष्णसुदो बलो धानुष्कोविरथम् चक्र इन्द्रनीलम् शिरीमुखैः सेनाम् समागताम् तस्य युयुधानोऽर्जुनप्रियः शरैर्विव्याधसमरे मैत्रीम् दुर्वचनैरिवम् ततश्च यादवैर्मुक्तो नृपो माघिष्मदीं ययौ गत्वा पुल्यां च दुःखार्थस्व स्मारस्वपदिं शिवम् अध तस्मै शिव साक्षाद् दत्त्वा दर्शनमुत्तमम् पप्रच्छ सर्ववृत्तान्तं श्रुत्वा सदुन्यवेदयद युद्धं निशम्य वदनं प्रत्याह प्रमधेश्वरः शिव उवाच शोकम्मा गुरुराजेन्द्रमद्वरोमृष न हि दैव दैत्यनर सर्वे त्वा विजेतुं न च ये ते कृष्णसुदा राजन् श्रीकृष्णस्यांशसम्भवाः न देवा ये महाराज न दैत्या न च मानुषाः ये तैर्विनिर्जितत्वम् तु दुर्मना भवमानृप अपराधम् तु कृष्णस्य कर्तुम् नार्हसि भोपदे समागतेभ्य ये तेभ्यस्तस्मात्त्वम् विधिना नृप प्रयच्छ भद्रम् ते कयमेधतुरङ्गमम् युत्ति कृत्वान्तर्दते रुद्रो नृपो ज्ञात्वा जगत्पदेः माहात्म्यम् च मुदा युक्तो गृहीत्वा क्रतु वासनम् नीलध्वजनसहितो रत्नान्यादाय भूरिशः स्वर्णभारशतम् चैवमदङ्गहस्रकम् नियुतम् खोटकानाम् च स्यादायस्यन्दनायुधम् यत्रा निरुद्धप्रययौ नमस्कर्तुम् जनैर्वृदः अनिरुद्धस्य निकटे राजा विधानदः सर्वं निवेदयामासनत्वा वचनमब्रवीद इन्द्रनील उवाच नमः कृष्णाय रामाय प्रद्युम्नाय महात्मने नमो नमो निरुद्धाय सा तुताम् प्रवदाय च आदेशो वीयदा किं करोम्य सुरादन अनिरुद्धस्तु तम् प्रासमयास्तनृपोत्तम शत्रुभ्यश्च मित्र हयं पालयत्वं हिमामकम् गर्ग उवाच इति तस्य वच श्रुत्वा तदेत्युक्त्वा नृपो नृपा नीलध्वजाय राज्यं तु दत्वा गन्तुं मनो दधे इति श्रीगर्गसंहितायां हयमेधण्डे अनिरुद्धविजयवर्णनं नाम पञ्चदशोऽध्यायः ओ अध्यायम् 16. गर्ग उवाच अधमुक्तस्तु तुरगो देशान् सर्वान् विलोकयन् उशीनरे च विषये प्राप्तश्चम्भावदीं पुरीं राज्ञा हे माङ्गदेनापि पालितां दुर्गमण्डितां चादुर्वर्ण्यजनाकीर्णां प्रासादै परिवेष्टिताम् यत्र के माङ्गदो राजा पुत्रेण हंसकेतुना राज्यम् करोति सुकृतिर्महाशूरजनायुर्वृतः ब्रीहीतस्तेन तु नतुरको निरुद्धस्य महात्मनः स्वपुर्याम् लीलया राजन् यादवान, गणय्य च बद्ध्वा के माङ्गदो राजा स्वर्णदाम्ना च वाजिनम् कपाडादीन् दत्त्वा क्रोधेन पूरितः यादवानां विनाशाय दुर्गभित्तिषुमानद सदग्न्यश्च द्विलक्षाणि धृत्वा युद्धाय वै मनः तदप्राप्तो निरुद्धस्तु ससैन्योश्वं विलोकयन् चम्पावत्या क्युपवने शिबिरोऽभूच तस्य अधप्रद्युम्नतनयस्तत्रा दृष्ट्वा तुरङ्गमम् उद्धवम् कृष्णचन्द्रस्य सफायमिदमब्रवीद अनिरुद्ध उवाच कस्येयम् नगरि मन्त्रीन् केन निदोकयो मम त्वम् जानासि महाबुद्धे कथयस्व विचार्य च युद्धम् निशम्य तद्वाक्यमुद्धवो ज्ञात्वा वार्ताम् च शत्रूणामिदम् वचनमब्रवीद उद्धव उवाच इयं चम्पापतीनाम्ना नगरी द्वारकेश्वर हंसध्वजेन पुत्रेण यत्र हेमाङ्गतो नृपः करोति राजन्तेनापि गृहीधस्तुरगस्तव येष राजा महाशूरो यज्ञस्याश्वं न दास्यति पुर्यां स्थित्वा भुशुण्डीभिर्बहु युद्धम् करिष्यति न निर्गमिष्यति बहिर्युद्धाय स तस्मात् तवेच्छा नृपदे यदा भूया तथा कुरु इति तद्वचनं श्रुत्वा स उवाचरुषान्वितः अनिरुद्ध उवाच अकं सर्वान् हनिष्यामि दुर्गयुक्तान् बहून् द्विषः लौहशक्तिसमायर्बान्नाय प्रकारार्धेन स तम इत्थं तद्वाक्यमाकर्ण्य याधव क्रोधपूरिदः पुरीं हन्तुं ययौ शीघ्रं ेषूंश्च कोडिशः अन्धकानां च बाणौखैः पुल्यां कोलाहलोऽप्यभूद शत्रवशङ्किता सर्वे वीराकंसध्वजादयः ततो नृपस्य वचनद्विरास्ते साहसेन वै दुर्गभित्तेष्वधारुह्य यादवान् ददृशु बहिः दृष्ट्वा ते जभयं प्रापु शत्रवर्षं प्रकुर्वन्त सर्वदा परिमण्डितान् तेभ्यः शदग्निर्व्यसृजं चतुर्दिक्षु च वह्निना न दास्यामो वयम् अधानिरुद्धसेनायां हाहाकारो महान्भूत विक्वदा कृष्णय सर्वे शदग्निभिः प्रताडिताः संच्छिन्नभिन्नसर्वाङ्गा केचिद्युद्धात्पदायिताः के केचिन्मूर्छां गदा राजन् केचिद्वै निधनम् गदाः केचित् प्रज्वलिता युद्धे भस्मीभूतास्तदा परे केचिद्वै पादहीनाश्च करहीना विभाहवः निःशस्त्रा पतिताश्चैव केचिज्ज्वलितकञ्चुकाः आहेदि वादिनः केचिद् रामकृष्णेदि वादिनः सदग्निभिर् विशीर्णाङ्गा गजा केजिन्मृद्धाङ्गणे दुद्रुवन्तश्च पतिता मूर्च्छिता निधनं गताः उत्पतन्तो दुद्रुवं मृधे मृत्युं गदा केचिद्विशीर्णा पतिता रथाः अग्निना पूरितं सर्वं यत् सैन्यं भयानकं दृष्ट्वा निरुद्धसङ्ग्रामे शुशोच संस्मरन् हरिं तद कृष्णस्य कृपया बुद्धिं प्रपाद बुद्धिं प्राप्त उषापदिः प्रतिशार्दम् गृहीत्वा वै निशङ्का चरमेव च नीत्वा निधाय कोदण्डे पर्जन्य अस्त्रं बलाहकः समागतो जलं ववर्षादयदोन् प्रपालयन् कृपीडयोनिं किल शान्तयन्नृप तदस्तेऽग्निभयान्मुक्ता शीदलाङ्गाश्च वृष्णयः श्लाखां कृत्वा निरुद्धस्य युद्धं कर्तुम् समुद्धिताः तान् प्रत्याहानिरुद्धस्तु ह्यकं यास्ये पुरीं प्रदि अर्वणे पक्षयुक्ते नैवो विजेतुं द्विषाम्पदिं गर्ग उवाच इति श्रुत्वा वचस्तस्य साम्वाद्य कृष्णनन्दनाः प्रोजु सर्वे चदम् राजन्नष्टादशमहारथाः हरिपुत्रावुजुः गन्तुम् नार्हदि राजन् शत्रूणाम् नगरीम् प्रति प्रयास्यामो वयम् सर्वे विचेतुम् चाददायिनम् इत्युक्त्वा कुपिता सर्वे सहस्रारुह्यकोटकान् सपक्षान् धन्विनो वीराधम् शिदायुधको विधाः उल्लङ्घयित्वा प्राकारं भूर्यां प्राप्ता हरे सुधाः गत्वा जग्नोद्विष सर्वं बाणायैरुरगसन्निभैः ते शक्रवस्तुसहसा नृपस्य वचनान् नृप युद्धार्थे धनिन क्रुद्धा आगता एककोटयः तान् आगतान् बहुन्वीरान् कुपितानुद्यता युधान् शाम्भो मधु बृहद् बाहुचित्रभानुर्वृकोरुणः सङ्ग्रामजित्सुमित्रश्च दीप्तिमान् भानुरेव जेदबाहुपुष्करश्च श्रुतदेवः सुनन्दनः विरूपश्चित्रबाहुश्च न्यग्रोधश्च कविस्तथा यदे सर्वे जघ्नौर्बाणैर्निरीक्ष्यजा तदपुर्याम् च वीराणाम् रुधिरेण मागतां नदीं को रामनिरुद्धस्तु सङ्गिदः प्रत्युवादरुशाजन्मुखेन परिशिष्यदा मत्पितृभ्रातरसर्वे रणे किं निगदाहो तस्मादस्मान् प्लावयितुं नदीघोरा समागता यदा मग्निमयर्बाणैः शोषयिष्येन संशयः पादयिष्यामि न गदीमहं गिरिसमैर्गजैः ततोनिरुद्धवजनाद्धस्ति पायर् लक्षहस्तिनः महोच्चाचमदोन्मत्ता कज्जलाद्रिसमप्रभाः करैर्गुल्मान् समुत्पाट्यक्षेप यम् तश्च तत्पुरे कम्पयन्तो भुवम् पाधै पुरोपरिसमागदाः गत्वा ते कुञ्जर सर्वे हे माङ्गदपुरी मृष सर्वदपादयमासुशीघ्रम् कुम्भस्थलैर्नृपा कपाडा पदिदा सर्वे द्वाराणां दृढशृङ्खलाः दुर्गस्य पदिदा पुर्या पाषाणभितयः पादयित्वा कपाडादीन् दुर्गम् चैव हरेर्गजाः पुर्यां प्राप्तान् नृपश्रेष्ठ रिपुगे कान्यपादयन् आहाकारो महानासी चम्पावत्यां तथैव भयभीता जन सर्वे नृपाद्याविस्मयम् गदाः तदा तु दर्शितौ राजा स्रजा बध्वाकरद्वयम् सम्मुखे करिपुत्राणाम् आयय्यौ पाहिमाम् ब्रुवन् तमागत नृपम् वीक्षरणे साम्बस्तु धर्मवृद भ्रातॄन्निवारयाम स दीन हन्द्रुंश्च निवारयित्वा सर्वान् राजानमिदमब्रवीद साम्ब उवाच आगच्छ राजन् भद्रं ते नीत्वा मम तुरङ्गमम् गच्छा निरुद्धनिकटे तदच्छ्रेयो भविष्यति यदि श्रुत्वा स तद्वाक्यं नीत्वा यज्ञतुरङ्गमम् हरिपुत्राय युदो राजा निश्चक्रामपुराद् कृत्वा निरुद्धनिकटे साकं पुत्रेण भूपतिः अयं निवेदयामासर्णकोडिं च मानदः अनिरुद्धस्तु राजेन्द्र निधिबद्धीनवत्सलः तत्करौ मालया बद्धौ मोचयितु वेदमब्रवीद मया सह नृपश्रेष्ठपालयैनं तुरङ्गमम् राजन्येभ्यश्च शतृभ्य कृष्णस्य प्रीतिहे श्रुत्वा निरुद्धस्य वजो महात्मा हेमाङ्गदो बुद्धिमदां वरिष्ठः दत्त्वा चराज्यं स्वसुधाय प्रीत्या गन्तुं मनस्तत्र चकारतेन इति श्रीगर्गसंहितायां हयमेधखण्डे चम्पावतिविजयवर्णनं नाम षोडशोऽध्यायः ओ अध्यायं सेवन्टीन् गर्ग उवाच अधानिरुद्धस्य हयो विमुक्तो यदुप्रवीरैश्च महोज्ज्वलाङ्गः उची नराद्वीरवरान् प्रपश्यन्ुनिर्गदसो दिशनैः शनैश्च एवं सविचरन् राजन् राष्ट्रे राष्ट्रे हयोत्तमः नृपैश्च बहुभिराजन् गृहीतश्च विमोचितः इन्द्रनीलम् जिदम् श्रुत्वा तथा हेमाङ्गदम् नृपम् नृपाश्चान्ये मण्डले च प्राप्तम् न जगृहृहयन् वीरहीनान् बहुन्देशान् विलोक्य तुरगोत्तमः यदृच्छया नृपश्रेष्ठस्त्री राज्यम् तु जगामः राजन्यकन्या काचिद्वै सुरूपा नाम सुन्दरी राज्यम् राजा तत्र न जीवति तत्र देशे श्रियम् प्राप्य ज्यष्टाम् भजति कामदः ऊर्ध्वम् संवत्सरात् कदापि स जीवति तत्पुर्येतुरगो गत्वा ह्युद्याने पुष्पसङ्कुले लवङ्क लतिकवृन्दे स्वेला गन्ध समाकुले पक्षिभिर्मधुपैर्घुष्टे स्थितो भू चिञ्चिणीतले ददृश्युस्त्रीजन सर्वे श्यामकर्णम् मनोहरम् ब्राह्मणाः क्षत्रिया वैश्यशूद्रा द्रष्टुम् समागदाः हयम् हा। दृष्ट्वा स्त्रियो गत्वा श्रुत्वा राज्ञीरथे स्थित्वा क्षत्रचामरवीजिदा नारीकोटिसमायोक्ता हयम् द्रष्टुम् समाययौ अश्वम् दृष्ट्वा च तत् पत्रम् भजयित्वा रुषान्विदा पुनः पुरे हयम् बद्ध्वा युद्धम् कर्तुम् मनोददे काश्चिन् नार्यो गजारूढा रथारूढा समाययुः हयारूढा तदा काश्चिद्दंशिदा शस्त्रसंयुधाः सा सर्वा कुपिता वीक्ष्य शस्त्रवर्षम् प्रगुर्वदीः आगतो ह्यनिरुद्धस्तु हे अनिरुद्ध उवाच राजनेताश्च कामार्यौ युद्धं कर्तुम् समागदाः विस्तरेणापि कथय येन मा येन मेत्याचिवन्त्विख हेमाङ्गद उवाच अत्र देशे च गुरुदे राज्ञि राज्यम् नृपेश्वर न जीवति स्त्रीभिः समन्विता अयम् गृहीत्वा ते कर्तुमागदा श्रुत्वा ये इति श्रुत्वा निरुद्धस्तु राजानमिदमब्रवीद अनिरुद्ध उवाच कस्मास्त्री कुरुदे राज्यम् राजा कस्मान्न जीवति एताम् विस्तरतो वार्ताम् यत्त्वम् जानासि तद्वद इति तद्वाक्यमाकर्ण्य राजा हेमाङ्गदौ ब्रवीद संस्मरन् याज्ञवल्क्यस्य स्वगुरोश्च पदाम्बुजम् या दवेन्द्रपुरावृतम् याज्ञ वल्क्यमुखाच्छ्रुधम् चम्बकाया मया पूर्वम् कथयिष्यामि तच्छृणु पुराकृतयुगे राजन्नप्रदेशे बभूवः नारीपालयुधिख्यादो राजा मण्डलेश्वरः तस्या सीन्मोहिनी भार्या सिंहलद्वीपसम्भवा पत्मिनी संसगमना पूर्णचन्द्रनिभानना तस्या सौन्दर्यजलधौ मग्नो भूत्वा महीपतिः अहर्निश्चमविज्ञायरेमेतां शतवत्सरैः न चाकारप्रजानां वै न्यायं कामे नमोहिदः तदा सर्वप्रजा राजन्बभूवुर्दुःखपीडिताः प्रजानाम् कदनम् वीक्ष्य मोहिनी नृपवल्लभा न्यायम् चकार सर्वासाम् स्वशक्रिया यादवेश्वर एकदा तम् नृपम् द्रष्टो माष्टावक्रो महामुनिः आजकामनृपस्याभिप्राप्तश्चान्तपुरे किल तमागदमुनिम् दृष्ट्वा नृपस्त्री लग्नमानसः विजहांस कुरु पोयं कस्मात् प्राप्त इति ब्रुवन् तदोरुषमुनिप्राः शृणुमूद नपुंसः मुनीनां श्रीजिदो भूत्वापमानं किं करिष्यसि त्वद्देशे च सदा राज्यं नाज कुर्वन्तु नित्यशः न तस्मात् गच्छ दे। अत्र देशे श्रियं प्राप्य यस्तां भजति नित्यशः तदु संवत्सरान्धे वै न जीवति न संशयः गर्ग उवाच इत्युक्त्वा स्वाश्रमं सोऽभिप्रयौ मुनिसत्तमः गदे मुनौ नृपस्तत्र क्लीबो भूतस्य चापदः सर्वं मुनिकृतं ज्ञात्वा गर्भयामास भूपदिः आत्मानमात्मना चैव सदि न दुःखदुःखितः कृतम् मन्दभाग्येन स्त्रिजिदेन मया ह्यहो मुनीनाम् त्यक्त्वा तथा निरययायिनम् अद्य माम् पापिनम् दुष्टम् यमदूतैर्विलोकितम् हृष्ट्वा वैतरणि योग्यम् कतापात्रमोक्ष्यधि इत्युक्त्वा स्वगृहम् त्यक्त्वा विचचारवने वने भजन् विमुक्तिदम् विष्णुम् लेपे चान् देहरे पदम् अत्र देशे जराजानो राज्यम् शापभयान्विताः न ना करिष्यन्ति नार्यश्च करिष्यन्ति संशयः श्रीगर्ग उवाज एवम् तयोः कथतो नार्यक्रुद्धाः समागताः व्यमुञ्चन् धनुःशैर्बाणान् पुंश्चल्यक्रोधपूरिताः सा विस्मिदो निरुद्धस्तु विस्मितो भूद्भयान्विदः कथम् करिष्य युद्धम् वै स्त्रीभिः सार्धमिति ब्रुवन् तदैव तस्य निकटे सुरूपामण्डलेश्वरी स्त्रीभिः प्राप्ता अहं त्वां मानिनं जित्वा प्रधने वृष्णिभिर्युधं क्रीडामृगं करिष्यामि मदनज्वरपीडितात् इति तस्या वच श्रुत्वा निरुद्धो भयविफुलः प्रत्यागदिनिया वच सर्वविन्मण्डलेश्वरीं तुरगं कृष्णचन्द्रस्य सर्वदेवदेवेश्वरस्य च मह्यं प्रयच्छ हेदाज्ञिक्रतोरर्थे नाकङ्करिष्य युद्धं वै त्वया सार्धं वरानने गच्छद्वरावधि तस्माद् दर्शनार्थं हरेश्च वै यन्नामस्मरणाद्भद्रे नरो यादिकृतार्थतां तस्य वै दर्शनस्यापि फलं किं कथयामि ते इति सा बोधितानि वै पूर्ववार्तां स्मरन्त्याः ब्रह्माणं मोहिनी यथा सुरूपो वच अहम् पुरा भवन्देव सर्वेश्या पूर्वजन्मनि मोहिनी नाम विख्याता कञ्चाङ्गा कञ्चलोचना एकदा हंसयानेन भ्रचन्दं दृष्ट्वा तन्निकटे गत्वा भज मामित्युवाचः यदा न जगृहे ब्रह्मशापं दत्त्वा तदा ह्यहं गत्वा कगुत्मगीतीरे चकार दुष्करं तपः तपः तपसा तोषितो ब्रह्म तपोऽन्तेजसमागतः तपस्विनीं प्रसन्नात्म वरं ब्रूहीत्युवाचः तच्छ्रुत्वा मोहिनी प्राह देवदेव नमोऽस्तु देव वरं वरय लोके सदीनां मां तपसि स्थिताम् यदि मां त्वं न गृह्णासि दुःखिदां शरणागतां तदा रोषेण त्यक्ष्यामि तपःसा च हृषां यदि श्रुत्वा विधिप्राक्शोकं मा कुरु वामिनि अन्यजन्मनि भद्रे भविष्यति मनोगथः अहं पौत्रे भविष्यामि द्वारकायां हरेश्च वै सुवर्णश्चानि क्रुद्धाख्यस्त्री राज्ये त्वं भविष्यसि ततो गृह्णामि भद्रे नानृतं वचनं मम इति श्रुत्वा च तद्वाक्यं जातां पृथिवीतले ब्रह्मा त्वं यादवश्रेष्ठं मदर्थे च गर्ग उवाच वाक्यं तस्य समाकारुण्य यादवा विस्मयं ययुः अनिरुद्धस्तु धर्मात्मा प्रत्याह विमलं वजः अनिरुद्ध उवाच गच्छश्रीद्वारकां भद्रे तत्र गृह्णामि त्वां अद्य यास्यामि तुरकम् राजन्येभ्यश्च पालयन् तदस्सा तस्य वाक्येन प्रमिदम् मन्त्रिणीम् वरम् राज्ये कृत्वा तुरङ्गम् च दत्वा द्वारवतीम् ययौ श्री श्रीगर्गसंहितायाम् हयमेधण्ठे श्रीराजविजयो नाम सप्तदशोऽध्यायः ओ